vam namo namantah vam shanti shanti dhyay नमो वाचे या चोदिता या चानुदितादस्ते वाचे नमो नमो वाचे नमो वाचस्पदयेणभ्य मन्त्रगुरुभ्य मन्त्रपदेभ्य मा मामृषय मन्त्रगुदा मन्त्रपदयः परा दुन्मामृढे मन्त्रगुदा मन्त्रपदेम् वैश्वदेवेन् वाचमुद्याजगम् शिवामदस्ताञ्जुष्टान् देवेभ्यः शर्म वेभ्यो शर्म पृथिवे शर्म विश्वमिदम् जगत् कर्मचन्द्रश्चर्यश्च धर्म ब्रह्म प्रजापते भोगम् वदिष्ये भुवनम् वदिष्य तेजो वदिष्ये विशावपदिश्च्ये गपोपदिश्चे ब्रह्मवदिश्ये सत्यं वदिष्ये तस्माहमिदमुपस्तरणमुपस्तृणमुपस्तरणम् मे प्रजाये पुशोनाम् भूयादुपस्तरणमहम् प्रजाये पुशूनां भूयाजम् प्राणापानो मृत्युत्मापादं प्राणापानो मामाहादिष्टम् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मसुवदिष्यामि मधुमदेभ्य वाचमद्याजगम् देवावन्तशोभायै वितरानुमदन्तो शान्तिःशान्तिःशान्तिः शान्ति युञ्जते मनहुतयुञ्जते धियः विप्राविप्रस्यत्रात् देवै नाविदे कयिते हि देवस्य तु विदः परिष्कृतिः दे, देवस्य प्रात् पितःप्रथवे दे, तस्यात् बाहुभ्याः ओस्मास्ताभ्यामाददे अभ्रिधिनायरसि अभरकृदेवेभ्यः उत्तिष्ठ ब्रह्मणस्पदे एवस्पयमहे उपप्रयन्तु मरुदः सुदानवः इन्द्रप्रासोपवासजाः प्रयुतब्रह्मणस्पतिः प्रदे सोनुदाः अच्छा वीरन्नर्यम् प्रतिदाससम् देवायज्ञन्दयन्तु नः देवेद्या वाचे अनुमेवंसा निर्ध्यासमद्य मखः सिरः मखायत्वा मखस्य त्वाचेष्णे हि यत्रध्यासमद्य मखस्य शिरः मखायत्वा मखस्य त्वाचेष्णे देवेः बम्बे अस्य भवतस्य प्रथमचारुदावरेः अध्यासमद्य मखः मखायत्वा मखस्यत्वाशीर्ष्णे इन्द्रस्य उजोधिमद्य मखः शिरः मखायत्वा मखस्यत्वाशीर्ष्णे अग्निजाधिप्रजापदेदः निर्ध्यासमद्या मखःशिरः मखायत्वा मखस्यत्वाशीर्ष्णे आयुद्धेः प्रानन्धेः अपानन्धेः व्यानन्धेः चक्षुर्धेः श्रोत्रन्धेः मनाधे हि वाजन्धेः आत्मानन्धेः प्रतिष्ठान्धेः मान्धे हि महिधेः मधुत्वा मधुराकरोतु मघस्यशिरोधि यज्ञस्य पदे स्थः गायत्रेण त्वा छन्दसा करोमि तेष्टुभेन करो करो त्वा छन्दसा आन्देण छन्दसा सूर्यस्य हरसाश्राय मकोहे कृष्ण अश्वस्य निष्पदसि वरुणस्ताशव्रताोपयतो निवरुणया ध्वेण धर्मणा अर्चिषे वा शोचिषे त्वा ज्योतिषे त्वा तपसेत्वा अभीमम् महिनादिवम् निद्राभूपसप्रसाः उदश्रवसा मित्रस्य कलेशणे धृतः सर्वस्य सानसिम् निम्नम् चित्रश्रवस्तमम् सिद्ध्येयेत देवस्ताशवितोपदो सुपानिष्वम् गुरिः उपाहृतशक्त्या अपद्यमानः पृथिव्याम् आशाविषापुणा उत्तिष्ठबृहम्भवास्तिष्ठध्रुवस्तम् सोऽयस्य त्वारिक्षुषाङ्गेक्षेता साधवे हेता सप्शक्ते त्वा भोक्तेः त्वा विनवः उर्वामुष्यायनम् विषा वृषभिर्ब्रह्म वर्तते नर्योहामि आयतेन त्वाच्छन्दसाक्षणद्मेण त्वाच्छन्दसाक्षणद्मे नागदे नत्वाच्छन्दसाक्षणद्मे छन्धिहविः देवपुरस्तरसङ्ख्या सन्त्वा ब्रह्मन् प्रवर्गेण प्रचरिष्यामः ओदर्धर्मष्टिः अग्ने द्रोहिणोपरोडा चिया प्रतिप्रस्थादर्विहरा प्रस्तोतः सामानिगायुजर्युक्तगन्धाम्भिरा हन्त्वा विश्वे देवेरुणमतम् मरुद्भिः दक्षिणाभिप्रदलम् बालयिष्णम् समानुगन्धे निर्णीयमानः भोर्भवः सुमः ओमिन्द्रमन्तः प्रजरता ब्रह्मण् प्रचरिष्यामः ओदधर्मभृष्टिः हिमायत्वा मुखायत्वा सूर्यस्य हरसे यत्वा प्राणाय स्वाहा व्यानायस्वाः प्राणायस्वाहा चक्षुषे अस्वाः श्रोत्राय स्वाहा स्वाहा वाचेतरस्मध्ये दक्षाय स्वाहा क्रतवे यस्वाहा ओचधे स्वाहा बला यस्वाहाधितामध्वानक्तो पृथिवे यस्वान्धे महाकुम्पधि शोचस्पज वगे धः अनम्ये अध्यजप्रशस्त्रदर्शनम् अञ्जन्दियम् प्रथयन्तवनभिप्रायाः नाबन्तः विधर्णपुत्रवरिप्रेष्ठः आधर्माग्निपदयन्नसादीन् अनाधर्ष्या पुरस्तान् अग्नेराधिपत्ये आयुर्वेधाः पुत्रवतीदक्षिणः इन्द्रस्याधिपत्ये प्रियान्मेधाः सुपश्चात् देवस्य नितराधिपत्ये प्राणम्मेधाः आश्वतिसप्तरतः मिनिवरणयोधिपत्ये श्रोत्रम् मेधाः विधरिष्टान् बृहस्पदधिपत्ये ब्रह्ममेधाः क्षत्रम् मेधाः तेजोमेधावक्षोमेधाः विशोमेधास्तपोमेधाः मनोमेधाः मनोरश्वाजिभोरिपुत्रा विश्वाभ्योमानाष्ट्राभ्यपाहि भोप्रधनामे हो यामाहि या ग्रन्थेः तपोष्टाग्ने अन्तरागम् अमित्राणि तपाशगुंसमरुषः परस्य तपावसो जितानो नितानिष्ठन्ता मदना अयादः चित्रस्थवरचितः स्वाहापयश्रयस्व मा अधिमा अधिमा अधि उन्मा अधि अन्तरिक्षस्यपशस्त्रायस्व आव्याय यहाम शुक्रं अतं अशरोपे अहने जौरिवासी विश्वायाव भद्रा पोषण निखला दिवस्त अहंकार अलहंड जलम्श अलः निरन्देशयविश्वमभुवम् अमावोलीयोरुध्रष्टरस्ते गायत्रमधेष्टागतमथेः सेष्ट्वा वध्यः पुनस्ता द्रोदे गायत्रेण सन्दधा समारुचितो रोजय इन्द्रस्त्वारुद्धेर्दक्षिरतो रोजे रुद्धेष्टुभेन छन्दजः समारुचितो रोजया वरुणस्वादिते पश्चाद्रोजे द्वारा नन्दसा समारुचितो रोजया विपानस्त्वामारुतोमद्भ्यर्थरतो रोजयत्वानुष्टुभेन छन्दधा समारुचितो रोजया बृहजस्ता विश्वे देवे वरिष्ठा द्रोजेदुपान्तेन छन्दसा समार्जितो राजया रोचनत्वम् देवधर्मदेवेष्वधि रोचदीयाहम् मनुष्ठेषुत्वम् देवेष्वायस्मागत्ये रजस्मे ब्रह्मवर्चस्यतिहम् मनुष्येष्वायस्मागत्येजस्मे ब्रह्मवर्चि भूयासम् रुजम् मयिधेहि मयुगे रश पुरस्परा रोचसे दश दक्षिणा दश प्रत्यङ्ग दशोदङ्गे दशोऽध्वनस्यमानः अनस्तम् राजिषर्मोर्जम् धेहि राजेवाजुने बवस्वशो धर्मोरु अवश्यम् गोपामनिपद्यमानम् आरतराजपथे शरन्दम् सवितो यसानः अनुभवान् देववीतये दे, समग्निरग्निनागता सन्देवेण समित्रः सकंसौर्येण रोचते स्वाहासमग्निस्तपसा गता सन्देवेण समित्रा सकंसौर्येणारोचिष्ट भर्ता युवाविधा दृशः पृथिव्यान्तरिक्षस्य श्रो देवानाः अमर्त्यस्तपोजाः ह्रे त्वा मनसे त्वा दिवेपाधोर्यायत्वामध्वरम् कृषि निविदेवे दोत्रायच्छ विश्वादाम्भुवाम् पदे विश्वस्य भुवनस्पदे विश्वस्य वनसस्पदे विश्वस्य नकषस्पदे विश्वस्य नपजस्पदे विश्वस्य ब्रह्मणस्पदे देवशोस्तम् देवघर्मदेवान् पाहि तपोविनाम् वाचमस्मे नियच्छ देवायिवम् गर्भो देवानाम् पितामतीनाम् प्रजःप्रजानाम् मदः कवीनाम् देवो देवेण सर्वम् नारुत्ता, आयुद्धास्त्वमस्मभ्यम् कर्मवर्चोदासि पितानासि पिताना, पिताना बोधा आयुद्धास्तनोधाः पयोधाः वर्चोदावरिबोधात्रविनोदाः अन्धरिक्षपरावरीयाय अशि महित्वा मामाभिः ममाज्ञागृहजविषामहे निश्वासाम्मानुषीणा शतम्हतः समेद्धारगुं शतगुम्भिमाः रन्द्राविणगुम्हाम् इहैव रातयः सन्तो स्वस्ते मदेते समेय सुरेतारेतो दधाना वीरम् विजय तमसन्दिशे माहगुम् रायस्तोषेण वियोषम् देवस्यत्वादिप्रसवे अश्विः बाहुभ्याःस्ताभ्यामादरे अदित्येनाश्नादे इडयैः अनितयैः सरस्वत्यैः असावैः असावेः असावेः अनित्यावश्नैषमदे असावे असावे असावे वायुरस्नेणः वोषा क्रोपावसजन अश्वभ्याम् प्रधापय एन यस्ते स्तर्यानि योत्रः सहस्वधांषा पुष्वधर्मम् पाहि धर्माय जिगंष बृहस्पयस्तोपधीतौ दानवस्थभैरवः विश्वकृतोलोहिणुभ्याम् विन्मस्व सरस्पत्ये पिन्वस्व स्व प्रजापदने बिन्वस्व इन्द्राय बिन्वस्व इन्द्राय बिन्वस्व गायत्रोऽष्टागतमधे तागेन सखस्य धर्मम् पादवधो यश्च रश्मये वृष्टिवणयेस्तव दावापृथिवीभ्याम् वा परिगृह्णामि अन्तरिक्षेणत्वोपयच्छामि देवानान् पाभत्रगुंसेऽयम् तेजोधि तेजोप्लेः द्विस्पृङ्माहिगुंसे अन्तरिक्षप्रङ्गामाहिगुंसे पृथिविस्पृङ्माहिपुंसे सुवर तिसुवर्मे यच्च इमयच्छिवो मा पाहि समुद्राय स्वापाताय स्वाहा सलिलाय त्वावाता यस्वाहा अनादृश्याय त्वावाता यस्वाः प्रजदृश्याय त्वावाता यस्वाः अवश्यवे त्वावाता यस्वाः दे त्वावाता यस्वाः श्रीमद्गदे त्वावाता यस्वाः अग्नये त्वामधुमदेय स्वाहा होमाय त्वा रुद्रपदे स्वाहा वरुणाय त्वा नित्यपदे स्वाहा बृहस्पदया त्वा विश्वदया स्वाहात्रयत्वभुमदय विभमदे प्रभुमदेवाजपदे स्वाहायत्वाङ्गिरस्पदे स्वाहा विश्वासा दक्षिणसदय विश्वान् देवालया विहा स्वाहागतस्य घर्मस्य मधोहा स्वाहाग्निय यज्ञाय संयजुर्भिः अश्विना घर्मम् पादगम् हादिपानम् अहद्दिवाभिरोचभिः अनुपान्द्या स्वाहेन्द्राय स्वाहेन्द्रावट घर्मपाकमश्विना हाद्दिपानम् अहर्दिवाभिरोचभिः अनुपान्द्या वा पृथगे अमगुम् साता तम् दिवम् गच्छ अन्तरिक्षम् गच्छीम् गच्छ पञ्चप्रतिशो गच्छ देवान् धर्मपाम् गच्छर्मपाम् गच्छः ओर्जवेभिः ब्रह्मणेबेभिः कर्ताय बेभिः अभ्यप्येभिः ओषधेभ्यप्येभिः वनस्पदेभ्यप्येभिः देवापृथिवेभ्याम् येभिः बेभिः प्रमिमवन्तसाय बेभिः यजमानाय बेभिः वाक्यन्तेच्छाय बेभिः इष्येये त्वा निम्नाय त्वा इन्द्रियाय त्वा भोद्येये त्वा धर्मा सुधर्मा मे यस्मे ब्रह्माणि धारय शस्तानि धारय विषन् धारय नेत्वा वादस्कन्दयात् अमुना सहनिरथ योऽस्मान् वेत्ते यम् च वयम् दश्मः ग्रामभ्यस्वाः वृथिरेभ्यस्वाः व्यापारेभ्याकृ स्वाहा पितुभ्याघर्मभ्यस्वाः रुद्राय रुद्रो त्रे स्वाहा अहर्ज्योदकेतना विधताम् ज्योतिर्ज्यालरागस्वाहा जालेतनादिषताोतिर्ज्योतिरागस्वाः अपि परो माह्नो रात्रिये माहि एषा ते अग्ने समित तया समेध्यस्व आयुम् वेदाः वर्तसामाञ्जेः अपि परोमारात्रियाह्नो मा पाहि येषा च अग्ने समित तया समेध्यस्व आयुम्मेदाः वाहादगे मधु हमे इंद्रत मेंशादेवर्मा मधुमत अवाजव पिगुमद अंगिस्पाव अशे वेस्तभ्य ेभ्यः धर्मया चिपिषुग यागायत्रे छन्दसे याग्राह ब्रह्मणे याः विधाने कान्तयतेना वेजे स्वाहा धर्मयातेऽन्तरिक्षेषुग या क्रेष्टुभे छन्दसे या राजन्ये याग्ने कान्तयेना वेजे स्वाहा धर्मयाज पृथिव्यागुंशुक या जागते छन्दसे यावेश्ये या दे तान्त स्वाहा अनुनाध्यानमदे अन्वितन निवस्तावरस्वायाः अन्तरिक्षस्य अनुवपाये देव्यास्ताधर्मणः वयमलक्रामासुविदायनम् यत् ब्रह्मस्तावरस्वायाः क्षत्रस्य अनुवपाये निरस्ताधर्मणः वयमनक्रामासुविदायनव्यथे प्राणस्य त्वारस्वाये चक्षुरस्तनमपाधर्मः परमाक्रामायाःशक्तिरन्नाभिरस्य प्रधाः अपद्यः अन्यत्रिव धर्मेदत्तेऽन्नमेतत्पुरेशम् तेन बद्धस्वचार्यायस्व यम् आगव्याधिलेमहिर्नामादिव्यायम् धर्मः तस्य च वत्रध्वनम्पदेः सम्भ्राणेन संवर्चितः सम्भयः सङ्गोपत्येन महान् वित्रा भिनन्नागुणादो ङ्गम् धर्वानिन्द्रोलक्षम् प्रजानाम् एतत्तम् देवधर्म देवो देवानुपागाः इदमहम् मनुष्यो मनुष्याने स्वामे तस्मै भूयासो चायत्रयोशिभिः वन्दे वत्रा जोर्भाभिवनःपदे नामोढधे नागौ रसः वायुनन् द्वायुना वययामः ओर्ध्वः सुवर्गम् अस्कान्द्योः पृथिवे अस्कानभायुभागाः स्कन्नेमाविश्वा भवना स्कन्नायज्ञः प्रजनयतो अस्कानजनि प्राजने आस्कन्नाजाय जयः स्कन्नाजनधेमहे या पुरस्ताः विद्युदापदते कान्तयेतेना वेदे स्वाहा या दक्षिणदः या पश्चात् योऽक्षरदः यवपरितः विद्युदापदत् कान्त एतेन वेदे स्वाहाय स्वाहा ग्रानाय स्वाः वानाय ष्णे स्वाहा वोष्णे रसे स्वाहा वोष्णे प्रवृत्सा यस्वाः वोष्णे न रन्ध्रिरा यस्वाहाणये स्वाहा वोष्णे नृणा यस्वाहा गेता यस्वाहाष्माः घाणुन्नार्थनिभर्ते हारमृवीनभौमानीषा अस्मत्सुनसवनभाजे अर्जन्धये कर्मदा तेन सौवर्यधारयन् धर्मस्य रक्त यास्ते अग्नायोनायनेयेः या मुनाभयः यास्ते अग्नेभो ध्रुव नाम आत्मभये विस्संविधानः ेव्रुवादीन अज्ञरद्रुवैश्वानरोजेरोजे यावत्सरोजे यद्वत्सरोजिवत्सरोजे तत्रैव सन्दर्शिनः वेष्मादक्षिणः पक्षः प्रजापुषम् शरदुत्तरपक्षः एवम् तोमध्यम् ओधवक्षाश्चयः अपरपक्षात् पुरीषम् अहोरात्राणेत्रगाः कश्चने माताश्चात्र कल्पन्दाम् भवस्य कल्पन्दाम् कल्पताम् अहोरात्राणि च कल्पन्ताम् येक्ते निवेदितमिति विजापस्ताः व्यम् महित्वारमानः पुरायत्र आदृतः सन्धारान्धरिकर्ताविकृतम् पुनः पुनरोयः मानवधर्मव्यथितो मानपरमधरम् मानयोनेः खाया आदित्याम् अधेपरिणावृणम् इममेवयामि त्वम्नाग्ने सप्तम्नाग्ने अयाधे तपस्परेत्यम् चित्रम् पयस्वर्णाः भवद्भुवस्तुभः मयि त्रिन्द्रियम् अयिधाय सुरेयम्भविभागमे आगोग्रामणसादः विराजा ज्योतिषादः यज्ञेण प्रयसादः ऋमनाखेदसरादः ीमहे तस्य नमधीमहे तस्य सक्षमधीमहे तस्य इन्द्रेण वेदस्य मधुपदः भक्षयामि घोरास्तविवादायिष्ठा मदिष्टोरास्थल् गच्छ योस्मान् यन् दश्मः स्नेहिस्नेहितश्च उष्णादिशीताज उग्रादिभीमाजिरास्ते अग्नेघोरास्तनुवः आभिरमम् गच्छ योन्द्वैत्ते यज्ञवयम् दश्मः ध्वनिश्रद्ध्वान् दश्रध्वनश्रद्धनयज्ञश्च विलिम्बस्य विलिम्बस्य विक्षिपः ञ्जयन्तो मासा श्रवयन्तोस्तापयन्तोस्त्वा हन्ततो खड् खड्दी छिन्धे हन्ते खटक्रूराणि विहायन्द्रविरन्वन्ध्रन्ध्रद्रेत्रम् अग्ने अग्निनादम्बरस्वृत्यामृत्य आदम्बरस्व नमस्ते अस्तु अग्ने नमः द्विस्ते नमः त्रिस्ते नमः चतुस्ते नमः पञ्चकृतस्ते नमः अष्टकृतस्ते नमः शतकृतस्ते नमः आदरस्ते नमरिज नमस्तेराषंत मे भी, भी या। साझल इन्द्राग्ने ब्रह्मना संविधानौ शिवामस्मभ्यम्पलक्षिणदोरः इति लक्षिणदलो निरन्तमेव पादाधिलोकान् दूताकलः कवितोनाशयाग्ने न्यन्माविश्य एवेजम् वदसे विषदानपरामया तान्मत्यामर्त्यवेनया तात्याक्यमाच्छन्तो अग्निराज्ञस्तम् वदता रदार्थ्यो वदते सव्यमक्षिनिपेऽपि च मेहकस्य जनामदे अत्र आत्मा क्रमे हन्मे कन्मेदग्निना विश्वावसारब्रह्मणामनः क्रमेणा गुङ्राजाः अपेक्षाकः अथो आदाथो विदा अथो क्षूराथो क्षुद्राः अथो कृष्णाथो श्वेताः अथो आशादिकाहराः श्वेताभिः सह सर्वे हताः आहरामद्यथा तत्सत्यम् यदमयमस्य जम्भयोः आदधा ब्रह्मणाद्वाजमाये ब्रह्मणत्वात्पथेन सर्वामि घोरेण त्वा भृगूणाम् चक्षुषा प्रेक्षेणत्वाङ्गिरथा मनसा ध्यायामि रहस्यत्वाधारया विध्यामि अथ अमत्पद्यस्वासौ उद्दुलशमिता वरे कल्पे चैकल्प उद्दुला गिलीकमरणप्रवेशया मरे चेतपसन्मुदा यावचितः पुरस्ता उदया शौर्यः ेष वयम् दृष्ट्वा भोर्भवस्तु भो भोर्भवस्तु भो भोर्भवस्तुवः भो अग्धाय भो अद्धायि भुवो अद्धायि धर्माय नर्मय नर्न निर्माय नर्माम् निधाय्यो वागि निधाय्यो वागि निधाय्यो वायि हे अस्मे अस्मे सुवर्णज्योतेः पृथिवी समिधे सार्ग्रिः समिन्धे शार्ग्निकम् समिन्धे सा भागम् समिन्धे आमासुविद्धा आयुषा तेजसा वर्तसा श्रिया यशसा ब्रह्मवर्तसेन अन्नाब्रेण समिन्दाकस्वाहा अन्तरिक्षकम् समिधे ताम् वायुः समिन्धे सा वायुगुम् समिन्धे सा भागम् समिन्धे सा वा समिद्धा आयुषा तेजसा वर्तसाश्रिया यशसा ब्रह्मवर्तसेन अन्नार्देन समिन्तास्वाहा यौः समिधे तामादित्यः समिन्धे सा नित्यगुम् समिन्धे कामगुम् समिन्धे सा मा समिद्धा आयुषा तेजसा वर्तसा श्रिया विषसा ब्रह्मवर्त्यसेन अन्नार्जेन समिन्दाकृ स्वाहा राजावत्या मे समितवत्नक्षेणी राजव्यहा मे विस्वाहा अग्नेयाम् व्रतपदे वृतञ्चरिष्यामि तच्छगे यम् तन्मेराध्यराम् वायु व्रतपदाधित्यम् व्रतपदे प्राणाहम् व्रतपदे वृतञ्जरिष्यामि तच्छगे यन्तन्मेराध्यराम् योः समिधे रामादित्यः समिन्धे साहित्यगुम् समिन्धे रामहुम् समिन्धे सा मा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेन अन्नाद्य न समिन्ताविस्वाहा अन्धरेक्षकम् समित सान् वायुः समिन्धे सा वायुम् समिन्धे सा महघम् समिन्धे सा मा आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्ताविस्वाहा समित सामग्निः समिन्धे साज्ञिगम् समिन्ध्य कामम् सविन्ध्य सा मा समिद्धा आयुषा तेजसा व्रतसा श्रसा ब्रह्मवन्नाद्य रमिन्ताः राजापत्या मे समित समक्षयिणी भ्रातुर्यहा मे विस्वाः आदित्यम् रथकम् तन्मे राधे वायो वर्तपते मे वर्तपदे व्रतानाहम्बवचारिषम् दाशकम् तन्मे षण्णो वादः पवतान्मादन्नस्तमरसौर्यः आलिसम्भवम्प्रधेयना समुषाणा व्यचमादित्य उदेतुनः श्रीवानः सन्तमापसुमृषे का सरस्वती मा क्रीडायै वा भूयात्समावास्तपख्य वा भो याद्यो स्वान्वे त्रिञ्च वयम् दुष्मः प्रतिष्ठाय प्रतिष्ठावन्त भूयात्मप्रतिष्ठायाः प्रतिष्ठस्भोयाद्या स्वान्वे वयम् धृष्मः आवादवाहिषेजम् विवादराहयद्रवः देवानाम् लोकयज दायन्ध्वरापराम् अन्यवादपरान्याद्धवः यदतोवादयस्य निधिरहितः अतो नादे अतोनाथेजम् अतो नाम आवहवाद आवादभेषम् प्रणायोजय इन्द्रस्य गृहाभितम्भा प्रपद्युस्साश्वः भप्रवद्युवशुभप्रभ्य वायम् प्रवजे नास्ताम् देवताम् प्रवद्ये स्वानमाखनम् प्रवद्य प्रजापजयम् प्रवज्य वाम् प्रभजे अन्तरे क्षमपुर्वरम् गृहधर्मय प्रवता श्रीयावादस्वस्त्यास्वस्तिमान्तया स्वस्त्यास्वस्तिमानधाने त्यार्मजायन्द्रैन्द्रियन्द्रयिमेजान्मयिपादमस्मानकृष्टन्वामित्रा वरुनामा महन्तामतिस्तिधप्रशयेदोदाखाः नाशमानाः अपध्वान्तमो वर्णे छन्नोदेव भवन्ति ईशानावर्यानाम् क्षयन्द्रेश्वरीयाम् सुमित्राणाै भोजायम् वयम् दृष्मः आभोहिष्ठामयभवस्तानभोर्जेदशादना महेरणाय चक्षसे योमस्य वदमारतस्तस्य भाये देहनः शयिवमातनः अस्मारङ्गमामो यस्य क्षया यजिन्वसा आमोदने सा जनः पृथिवी शान्तासा किना शान्ता सा मे शान्तासुतकम् समेत नन्दैर्क्रम् शान्तम्वारिणा शान्तम् तन् मे शान्तकम् सुतकम् समेतो द्यौ शान्ता सात्तेन शान्ता सा मे शान्तासुतम् समेत ौ शान्तर्विषशान्तरवान्तरन्तरग्निशान्तर्वाणिशान्त्यश्च शान्तश्चन्द्रमाशाक्षाङ्ग्रामशान् दर्गौ शान्तर्यान् निर्पुरुषशान्तर्ब्रह्मजान् ब्राह्मणः शान्तशान्तः पयाः गुरुशान्त्या सर्वशान्त्या मह्यम् जपदे निष्पदे शान्तिम् करोमि शान्तिर्मे अस्तु शान्तिः ये चक्रे चतुश्च मेधाप्रतिष्ठा श्रद्धारम् धर्मश्चैदानि मम तिष्ठन् गमो तिष्ठन् गमाविश्वे चक्रे चतुर सर्व मेधाप्रतिष्ठा श्रद्धारम् धर्मश्चैदानि महामाहाज युधादोनागुण्ये नास्ताक्षितम् पुरस्तार पश्याम धरश्रदम् जीवाम धरशन् नन्दामदश्रदम् बोधामदरशम् भवामि धरशवामधरश्रदम् प्रब्रवामीजामश्रदन् दृजे ौर्ये ब्रह्मणागमनमयम् पृथिवीम् ब्रह्मणा मेधातमे पृथिवीम् मेधामने भोजस्य भव्यस्यामलब्धे सर्वमायनयानि सर्वमायनयानि आभिर्गेभे नवो नमाध्यायवर्धमानः ब्रह्म प्रापाष्पदम् नमहा ओम् शान्तिः नमो न मदन्तो long time dastan dastan be o